सम्प्रत्या चक्षते चेदम् तथा श्रोष्यन्ति चापरे पुत्राः शुश्रूषवः सन्ति प्रेष्याश्च प्रियकारिणः शरीरेण कृतं पापं वाचा च सर्वं च सर्वम् सन्त्यजति क्षिप्रम् ययिदम् शृणुयान्नरः भरतानाम् महज्जन्म शृण्वतामनसूयताम् नास्ति व्याधिभयम् तेषाम् परलोकभयम् कुतः धन्यम् यशस्यमायुष्यम् पुण्यम् स्वर्ग्यं तथैव च कृष्णद्वैपायनेनेदम् कृतम् पुण्यचिकीर्षुणा कीर्तिम् प्रथयता लोके पाण्डवानाम् महात्मनाम् अन्येषाम् क्षत्रियाणाम् च भूरि द्रविणतेजसाम् वदे प्रथित कर्मण यईद मानवो लोके पुण्य ब्राह्मण शुची श्रावत महापु्यं तर धर्म सनातन ऊपित कीर्तयन् कीर्तयन सततम शुचि वंशमातिपुल लोके पूज्यतमोत् योधीते भारतम् पुण्यम् ब्राह्मणो नियतव्रतः चतुरो वार्षिकान् मासान सर्वपापैः प्रमुच्यते विज्ञेयः सच वेदानाम पारगो भारतं पठन् देवाराजर्षयो ह्यत्र पुण्य ब्रह्मर्षयस्तथा कीर्त्यन्ते धूतपाप्मानः कीर्त्यते केशवस्तथा भगवाँश्चापि देवेशो यत्र देवी च कीर्त्यते अनेकजननो यत्र कार्तिके यस्य सम्भवः ब्राह्मणानाम् गवाम् चैव माहात्म्यम् यत्र कीर्त्यते सर्वश्रुतिसमूहोऽयम् श्रोतव्यो धर्मबुद्धिभिः य इदम् श्रावयेद्विद्वान् ब्राह्मणानिव पर्वसु धूतपाप्माजितः स्वर्गो ब्रह्म गच्छति शाश्वतम् महीम् प्रसूते गर्भिणी पुत्रम् कन्या चाशु प्रदीयते वणिजः सिद्धयात्रास्युर्वीरा विजयमाप्नुयुः वेदविद्याव्रतस्नातान् क्षत्रियाञ्जयमास्थितान् स्वधर्मनित्यान् वैश्यांश्च श्रावयेत् क्षत्रसंश्रितान्